निवर्त समासमानच्छो अनागसाह यस्के बलम जुदन धौरसस्य मद्भुक्तिया तंग जगत् हृदय नमज्ञ रम् तेन त्वा स्थयामसि यद्दुर्भगाम् प्रश्नापिताम् मुदवत्सामुपेम अपेतृसर्वम् अर्थापन्त्रपेधम् मोका यत्ते कृतृभ्यो यज्ञे भा नाम जगुरोः त्याहङ्गाग्रात्सन्दे स्यादभिनिष्क्रेतात् पुण्डम् दृत्वा वेदधा वेदब्रह्मणविभ्य सदृशेनाम् यथा वादश्चापयतिभोम्या रेणुमङ्गलेक्षाच्छाभ्रम् एवावत्सर्वम् अपक्रामनादते विनर्था कर्तभेव कर्त्र नक्ष स्वेदोनुक्ता ब्रह्माणा देव्याःता अयम् बन्धाः कृत्ये दत्वा नयामोऽभिप्रहेताम् प्रयुक्त्वा प्रहिमतेनाभिया हि पञ्चच्चलस्मदेव वाहिनी विश्वरोपुरूपिणे परा ज्योतिलपासन्द अल्वागन्यत्रास्मदया नागृणस्व परेणेहि न वदिव्या आदिदुर्गा स्वात्यामाक्षनिष्ठाः परेः पादयो वृक्षान्यमृणेः पादयमागामश्वम् पुरोषमुच्छेस येषाम् पत्रे नरत्ये च कृत्ये प्रभास्वाय बोधय यान्ते बर्हिषियाम् श्मशानेक्षेत्रे कृत्याम् दानकम् वा निचक्ष्णुः अग्नौ वा त्वागाघमत्येऽभिचेदुःपाकम् सन्दन्धेरतलानागसम् उपाहृगमनोपर्धन्निखातम् वैरम् सार्यन्वावितामकर्त्रम् पदे तु यथाभृतम् तत्रास्वायवविवर्तकाम् मन्दोत्याकृतः प्रजा स्वायुषाशयः सन्दिनो गृहे विद्मा चे गृत्यैति भावरोंशे वृत्तिष्ठैव भरे हेतोज्ञाजगिमिहसे ग्रेवास्ते कृत्ये पादौ चापे कर्स्यामि निर्वा इन्द्राज्ञे अस्मान् रक्षताम् यौ प्रजानाहम् प्रजावाति सोमो च भूतश्च नःपत यो भवा शर्वापस्यताम् पापकृते कृत्याकृते दुष्कृते विद्युतम् देवहेतिम् यद्ययचद्विपदे चतुष्पदे कृत्याकृता सम्भृता विश्वरोपा श्रेयोपदे भूत्वा पुनः फलेः लक्षुणे अभ्या आत्तात्मा स्वरङ्गदा सर्वम् भरम् त्वे कुरितम् वरेहि जानेः कृत्य कर्तारम् स्वम् परे हि कृते मातिष्ठविद्धस्येवपदन्नाय मृगः समृगयस्वन्नत्वा निकर्तुमर्हति उत हन्विर्वासिनम् प्रत्यादाय परविश्वा उत पूर्वस्य निघतो निहन् च पारः प्रति एतद्धि समेव चोथे हि यदा ये यथस्त्वा प्रति अनागो हत्या वै भीमाकृत्ये मा नो गामश्वम् पुरोषंवधेः यत्रा यत्राशिनिः तादृशोत्थापयामसि पर्णालहेयसी भव निरश्चतमसावृताजाले दा नाभिः दायिवा सर्वा स्वल्ल्वेतकृत्या पुनः कर्त्रे प्रहिन्नमसि कृत्याकृतावलगिना नियस्कारिणः प्रजाे कृत्य मोर्चे शामो कृत्याकृते सुष्परिजहात्युषदश्च गेदोरे देवाहम् सर्वम् गर्भोदङ्गत्रम् धृत्याकृता कृतम् हस्ते परजो गुरुसङ्ग्रामे स्ते आभृतपो रोषश्च केन मांसम् सम्भृतम् केन गुल्फौ केनाङ्गुले पेषा नेकेन कानि केनोत्सङ्कौ के मध्यतप्रतिष्ठाम् कस्मान्नुगुल्फावधारावकुर्वन्नश्चेवन्ता उत्तरौ पोरोषस्य जङ्घे निर्दर्जदर्पस्थिजानो सन्धे कवदर्चीकेत चतुश्चयुच्यते सम्मेतान्तम् जानुभ्यामूर्ध्वम् चेच्छोणेय नोरोकवुतर्जानयाभ्याम् कुसन्धम् सुदृढम् बभोव कतेवाकतमेतासन्यपुरोऽग्रे वाष्टिक्यः पोरोषस्य कतिस्तनौ ज्ञादभक्तः प्रातो कतिः स्कन्धान्तरे पृष्ठेरजिन्वन् को अस्य बाहो समाधरद्वीर्यम् करवादिति हंसौ को अस्य तद्देवः कुसिम् धे अध्यादधौ कानिमितर्दशेषनिकर्णाभिवो नाशिके चक्षणि मुखं। ेषाम् पुरुत्रा वेदयस्यामह निचतुष्पादाद्भियामम् हन्माय जह्वामधाद्भुरोमहेमधे शिष्याय वाचम् सा काले वर्तृवालयः सन्दरमोपसानेत शिष्यामस्य यो ललाटम् कटाटेकाम् ्रह्मङ्गः पोरोषस्य दिवम् रुडाहषमस्व देवः प्रियाप्रियाणे बहुलास्त्वम् संवादनन्द्याः आनन्दानग्रोनन्दाम् चमात्महदे पोदोषः आर्थमर्थः कुतो न कोऽस्मिन्नापो व्यादधात् विशोभतः पूर्वतस्य जाता हे प्रारुणाम् रतो राहोद्भावाचे पुरोषिरस्येः को अस्मिन् रोपमादधात् को मह्मानम् धराङ्गस्मिन् कश्चेतङ्गश्चरित्र यत्को आनम् यानमो समानमस्मिन् को देवोऽधे शिश्राजपोरोषे कोऽस्मिन् यज्ञमादधारे को देवोऽधिपोरोषे कोऽस्मिन् सत्यम् को नेतम् कुतो भृत्यः कुतो मृतम् को अस्मैवासः पर्यधात् क्व अस्यायोरकल्पयत् परम् को अस्मै प्रायच्छत्को अस्या कल्पयजवम् केनाभो अन्नातमृतकेनाहारकरो दृजे उषसङ्केनान्वयेन्धनकेन सायम् भवन्तस्मिन् रेठोन्यदधा त्वन्तुराधायतामिति मेधाम् को अस्मिन्नध्यो हो भाणम् को कृत केनाभिमन्ना के पर्वताम् केन कर्माणि पूरोषः केन वर्जन्यमङ्गेहेति केन सोमम् केन यज्ञम् च श्रद्धान्तकणिनास्मिन्निहेतम् के मनाः केन श्रोत्रियमाप्नोदिकेनेवम् परमेष्ठिनम् केनेमज्ञम् गोरोषः केन संवत्सरम् मा ब्रह्म श्रोत्रेयवाप्नोति ब्रह्मेमम् पारमेष्ठिनम् ब्रह्मे ममग्निम् गोरोषो ब्रह्म संवत्सरम् मामे केन देवा अलक्ष्यति केन दैवाजनेर्विशाः केनेदमन्यन्नक्षत्रम् केन स क्षत्रमुच्यते ब्रह्मदेवा अलक्ष्यति ब्रह्मदैराजनेर्विशाः ब्रह्मेदमन्यन्नक्षत्र केनेदम् केन जोरुत्तराहिता केनेदमोर्ध्वर्यक्षान्तरिक्षम् विजाहितम् ब्रह्मणा संशे व्यासञ्च मस्तिष्कादूर्ध्वप्रेराहत्व मानो देशेर्षमः तद्वाथर्णशिरो देवकोशः समुर्जितः तत् प्राणो अभिरक्षति शिरो अन्नमथोमनाः ऊर्ध्वोऽनुसृष्टा वैतम् चक्षुर्जहादिनप्राणो जलसः पुरा पुरैयो ब्रह्मणो वेदयस्य पुरोष उच्यते अष्टाचक्ष नवद्वारा देवानाम् पुरागोध्या तस्याम् हिरण्यः कोशः स्वर्गो ज्योतिषावृतः तस्मिन्भिरण्यये कोशे त्यारे ष्ठिते तस्मिन् यद्यक्षमात्रैवम् हविदो विदो प्रभाजमानाम् हरेणे यशाम् हिरण्ये ब्रह्मविर्वेशापाराजिताम् हरमेव नक्षया नो वृषा वैनान् शणेः प्रमृणाराभत्स्व मणिस्थे वस्तु पुरयेता पुरस्तात् अवाहारयन्तवरणेन देवाभ्या चालमसूराणाम् स्वस्वाहा अयम् निर्वारणो विश्वभे जलत्सहस्राध्यो हरे दोहिरञ्जनाः रणोऽवाहारयाता अयम् देवो वनस्पदेः यक्ष्माया हस्तन्नाविष्ठस्तमो देवावेवरन् स्वप्नम् सप्ताय दिवश्चादिपापम् मृगः यावादजष्टाम् परिक्षवाशुने पापवादादयम् वनिर्वारणो वारयिष्यते ्या स्वाधिचारादथोभयात् मृत्यो रोजीयसोऽवथाद्वारणो वारयिष्यते यन्मे माता यन्मे विचाभ्राता रोयच्च मे स्वायदेनश्च क्रमा वयम् ततो नोवारयिष्यतेऽयम् देवो वनस्पतेः रेन प्रव्यासिताभ्रातृव्यामेधबन्धवः असोर्तम् रतोप्यगुस्तेऽयम् प्रधानन्तोऽहमरिष्टगुरायुष्मान् सर्वोरुणः मायम् वारणो भिप्रदेपातु दिशो देशः अयम् ने वरणसि राजा देवो वनस्पतेः स्वमे शत्रोन् निवाधतान्द्वादस्यो निवासोरान इमम् मेभन्विवरयुस्माञ्छतशारदः समे राष्ट्रम् च क्षत्रम् च पशोनोजश्च मे दधते यथा वादो वनस्पतेऽन्वृक्षान्फल्योजसा एवासमर्तान्मे भन्धिवोर्वाञ्जाताम् पुराकारान्वरणस्वाभिरक्षतु यथा वादश्चाग्निश्च वृक्षान् सादो वनस्पतेन मेक्षा हि पूर्वाञ्जाता उदान्वरन स्वाभिलक्षतुवादे प्रक्षेणामृक्षाशेरेण्यर्पिताः येवासपत्नाम्स्त्वम् मम प्रक्षेणे हिण्यर्पय पूर्वाञ्जातानुदापालाङ्गुलन स्वाभिलक्षतु ताम् त्वम् प्रक्षन्दिवर्णपुराधिष्ठास्पुरायो नः शरदिक्सम् तेजाश्च राष्ट्रदिक्सवाः यथा सौर्या अतिभाति एवमेव रणः कीर्तिम् भोतिन्ययच्छतु तेजसामासमक्षतु यश शासमानक्त्वा मेवराणो मणिः भोजम् नियच्छतु तेजसामासमोक्षद्यशा सासमानक्त्वा यथायश पृथिव्यायथास्मिन् जातमेतथे हेवामेवणो मणिः भोजयच्छतु तेजसामासमोक्षद्यशा सासमानत्वमा यथायशः कन्यायायथास्मिन् सम्भ्रजे तथा यच्छतु तेज सामासमोक्षतुय सासमानक्तुमा यथायषस्तोमपे च माधुपर्क्ये यथायुषाः देवामेव न अनित्येऽस्मिन् भूतिम् यच्छतु तेजसा मासमोक्षतुयष सासमानक्तुमा यथायुषोऽग्निहोवष काले यथायुषाः राणो मणिःख्येऽस्मिन् भोज्यक्षतु ते च सामासमोक्षद्विसमानक्तुमा यथायसो यजमाने यथास्मिन् यज्ञाहीतम् येवामे वराणो मणिख्येऽस्मिम्भोदि नियच्छतु ते च सामासमोक्षिय सासमानक्तुमा यथायश प्रजापादो यथाऽस्मिन् वारमेष्ठिने ते वराणो मणिः केर्तिम् भूतिम् न्ययच्छतु ते जा समासमुक्षतु यथा देवेश्वमृत यथैव सत्यमाहेतम् हे वामेव नो मणिः केर्तिम् भूतिम् नयच्छतु ते जामासमुक्षतु इन्द्रस्य प्रथमो रथो देवानामपरो रथोऽवरोणस्य तृतीया महे एनामपामारथस्थाणुमारथा गर्भः शोचिस्तरोण कमश्वस्य अवारपरोश्यावाराः रथस्य बन्धोरम् अपश्वेतपदाच हि गोर्वेहेन चापारेण च उदप्रतमेव दार्वहेयेनापरासंविषं वा रुद्रम् अरङ्भया निमज्जोन्मज्जपुलावेत् पुनःप्रदमेव दार्वहेनामरसंविषं वा रुद्रम् वयेद्वाहन्निकधरणेरम् वयेद्वश्चित्रमुदासितम् वयेद्वारा ध्याश्रुरः संवे भेदवृदा स्वाह वये द्वाक्रेः प्रथमोणस्वाभयमेमसे अहेरणस्य दात्मसो येन स्वा भयमेमसे इदम् वयेद्वा आचारिते नमस्य परायणम् इमान्यर्वादः पदा हिक्योवासिनीवतः सय्यदन्नवैष्ण रत्यात्तसंयामत् अस्मिन् क्षेत्रे स्वावहे श्रेवान् श्रुता अरहास इहा यो ये अन्त्रिये च दोरके धनेन अन्यवश्चेकमहिम् दण्डेनागतम् तथा चेदम्भे शजमुभयो स्वजस्य इन्द्रमे हेमघायम् तमहिम् वयेद्वारन्धयत् वयेद्वस्य मन्महे वयम् स्थिरस्य स्थिरधाम्नः इमे पश्चाप्रदागवप्रदेध्यादासते नष्टासेवो नष्टवेशाहता इन्द्रेण वज्रिणा दधानेन्द्राज्निमा वयम् हता, हता स्थिरः जहे, म् स्वच्छन्दर्भे श्वासितम् जाहि नैरादिका गोमादिकाशकाख्याम् हरण्ययेभिरभिर्गिरेनामुपसानोष आयमागन्यवाभिजत्पृष्टिहापाराजितः स वै स्वरजम्भोभयो वृश्चेकस्य च इन्द्रोमेः वरन्धयम् नित्यश्च अवलोणश्च जन्य इन्द्रोमेः वरुन्धयप्रदाकुञ्जपृथारस्यालिङ्गधरणेऽरम् दशालसिम् इन्द्राजखानप्रसामुञ्जनिता रामहेतव तेषाम् दृश्यमानानाम् कश्चित् तेषाम सद्दशाः सम्मितेर्षान्यग्राभम्भोऽन्य एव कर्वारम् सिन्धान्मध्यम् परेर्चव्यामहे अविषम् अहेनाम् सर्वेषाम् विषम्बरा वहन्तु सिन्धावः लता स्थिरस्याजयोनुपृष्टा सप्तागवः ओषधेनामहम्बरेण उर्वरे जवसाधुया मया निवाहे विलयितुते विषम् यदग्नौ सूर्ये विषम्ब्रिव्यामोषाधेशयत् कान्दाविषम् कलक् गम्भिरैत्वम् ये अद्य जावोषधिजाहेना ये अत्सुजाविच्युता बभो वः येषाम् जाता मे बहुधा महान्तरेभ्यः सर्पेभ्यानमासाभिधेमा तौ ते रामादिकन्याघृताजीरामवासि अधस्पदेन देवदमाद देविषदोषाणम् अङ्गादङ्गात्प्रत्यावयहृदायम् बलेवर्जय अथा विशस्य यत्तेजो वाचीनम् ददेतुदे आरेभोद्विषमरोद्विषविषमप्रालपे अग्निर्विषमहेर्निराधात्सोमो निराणयेत् तम् स्थानकाद्विषमहेरमृता इन्द्रस्य उदस्थेन्द्रस्य जहस्थेन्द्रस्य चबलं स्थेन्द्रस्य वीर्यं अम्बेन्द्रस्य नम्नं स्थ इष्टरे योगाः अय ब्रह्मयोगेर् वो यन्यमे इन्द्रस्य उदस्थेन्द्रस्य जहस्थेन्द्रस्य चबलं स्थेन्द्रस्य वीर्यं अम्बेन्द्रस्य नम्नं स्थ इष्टमे योगाः अक्षत्रयोगेर् वो यन्यमे इन्द्रस्य उदस्थेन्द्रस्य हस्थेन्द्रस्य बलम् इन्द्रस्य वीर्यम् आमस्थेन्द्रस्य गुणम् स्था स्थितवे योगाय इन्द्रयोगेर्वा यजमे इन्द्रस्य उदस्थेन्द्रस्य हस्थेन्द्रस्य बलम् इन्द्रस्य वीर्यम् आमस्थेन्द्रस्य गुणम् स्था स्थितवे योगाय सोमयोगेर्वा यजमे इन्द्रस्यौधश्चेन्द्रस्य सहस्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्या आेन्द्रस्य नमनं स्थ विष्णवे योगायात्सु योगेर्वायुनग्ने इन्द्रस्योदश्चेन्द्रस्य सहस्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्या आं स्थेन्द्रस्य नमनं स्थ क्लिष्टवे योगाय विश्वानिमा भूतान्युगा तिष्ठन्तु युक्तामापस्थ अग्नेर्भागस्थ अपाम् शुक्रमा बोधेवेर्वर्चो अस्मासो धत्तवादेर्वोधान्हास्मै लोकायधादये इन्द्रस्य भागस्थ अपाम् शुक्रमाबोधेवेर्वर्चो अस्मासो धत्त प्रजापादर्वोधाम् नास्मै लोकाया सादय सोमस्य भागश्च अपाम् शुक्रमाबोधो धत्त प्रजापादर्वोधाम् नास्मै लोकाय साधय वरुणस्य भागश्च अपाम् शुक्रमाबोध्वचो अस्मासो धत्त प्रजापादर्वोधाम् नास्मै लोकाय साधये मित्रावरोणयोर्भागस्थ अपां शुक्रमाः बोधे अस्मासो धत्त प्रजापादेधाम् नास्मे लोकाय साधये यमस्य भागस्थ अपांशुक्रमाः बोधे वेर्वर्गो अस्मासो धत्त प्रजापादेधाम् नास्मे लोकाय साधये ेव प्रजापादर्वोधाम् नास्मै लोकाय साधये देवस्य सविदर्भाणस्थ अपाम् शुक्रमा बोधेवेवर्च अस्मादो धत्त प्रजापादर्वोधाम् नास्मै लोकाय साधय नमामि सजवितम माध्यव विक्षे ते नडमाध्यत सज मोय ओस्मानदत्यम मयंदिष्म तंबहयम कंस्त्रसे यारे ब्रह्मनाले नकमना नान्यामेन् जा योमा अपोकामून विरक्ष भ्यज सृजामोय ओस्ताम् जय श्रियम् वयम् विष्मः तम् वदेयम् तम् श्रेश्रेयानेन ब्रह्मणानेन कर्मणानयामेश्यो देवानुजानः इदम् तमदृजामिदम्माभ्यवारिक्ष्ये तेन तमभ्यदृजामोय ब्रह्म कर्मया मेन्या गोपा गोपामृषो ओप्स्वा आन्तर्य सृजामितम् आभ्यवक्ष्य तेन समभ्यति सृजामो योऽस्माञ्जम् वयम् दृष्ट्वा संवधयम् तम् श्रेशे यानेन ब्रह्म नानेन नानया मेन्या ो वा गोपाम् हिरण्यगर्भो स्वा आन्तर्युष्यो देवम् माभ्यमानि प्रेमतमभ्यदृ रामो योऽस्मान्त्यम् वयम् विष्मः यानेन ब्रह्म नानेन कर्म नानयामेन्या यो वा पोपामस्मानष्टिव्यो निक्षे तेन यामो यो ओस्मयम् वयम् विश्वः तम् वधयम् तम् स्पृशियानेन ब्रह्मणानेन कर्मणापोपामग्नयो स्वान्तर्यशिष्याः देव यजनाः यन्तानति यामितान् माभ्यवक्षे यम् दस्मः ब्रह्म नानेन कर्म नानयामेन्या यदर्वाजेन आपो मा तस्मात् सर्वस्मात् दुरितात्पान्तुम् ह समुद्रम् वक्रहेणो विस्वायनिमपेद हरिष्ठाः सर्वाः य सोमाजन किञ्च नामा हरिप्रापो हरिप्रमस्मद प्रास्मदेन सुप्रदेकाप्रदस्वप्नम् प्रमलम् वहन्तर्णाः ऋषिवेदम् पृथिवेमक्षा मे अम् सञ्ज्ञास्तु निर्भयामो यो अस्मान् देष्ट्यम् वयम् विष्टः समाजेवेत्तम् प्राणो जहात विष्टाक्रमाजवत्नाहान्तरिक्ष संस्कृत वायुदेजाः अन्तरिक्षमल विक्रमेऽहमन्तरिक्षार्थम् न भजामो योऽस्ताम् देष्टियम् वयम् सूर्यतेजाः विलमल हम् दिवश्च निर्भाजामो य अस्मान् वैष्ठ्यम् वयम् द्विष्मः समाजे वेत्तम् प्राणो जाहासो पृष्ठाक्रमादृमग्नाः ऋक्षंसितो मनस्तेजाः विशाल विक्रमेऽहम् दिग्धस्तम् निर्भाजामो य समाजे वेत्तम् प्राणो जाहासो पृष्ठाक्रमादिमग्नाः ङ्खितो वाद्याः आशान् वित्र मेहमासाध्यस्तम् निर्भयामो यो ओस्मन् नैष्ठयम् वयम् विष्मः समाजे वेत्तम् प्राणो जातो कृष्णाक्रमो संस्कृतमित्रमेह मृद्धस्तम् निर्भयामोय अस्मन् नैष्ठम् वयम् विष्मः समाजेवेत्तम् प्राणो जहातु विष्ठाक्रमानुवग्नाः यज्ञशंशितो ब्रह्म देदाः यज्ञमनुविक्रमेः यज्ञार्थम् निर्भयामोयोस्माम् वैष्ट्यम् वयम् विष्मः समाजेवेत्तम् प्राणो जातु विष्ठाक्रमानुसवत्नाहौषधे संश्रितः सोमदेशाः ओषधेर निमिक्रमेहमौषधेभ्यस्तम् निर्भजमोयो अस्मान् वैष्ठ्यम् वयम् निष्णः समाजेवेत्तम् प्राणो जहातु विष्णात्मसु समत्प्राः सुसंणतेजाः अपोषमिक्रमेहमभ्यस्तम् निर्भजमोय ष्टाक्रमाजमर्गः कृषिकम् कृषिमनमिक्रमेहम् तस्यास्तन्यमोजोऽस्मान् वैष्ठ्यम् वयम् दृष्मः समाजे वेत्तम् प्राणो जहातु विष्टाक्रमादमत्ताः प्राणजम् चिदक्रोषजः प्राणमनमिक्रामे इदमस्ताकमभ्यन्नमस्ताकमभ्यस्ताम्भ्य स्वादनारादेः विदमहमावुष्यायलस्यामुष्याभस्यावर्चस्य प्राणमायुर्निवेष्टयामि इदमे नाञ्चम् वादयामि सूर्यस्यावृता मन्दावत्र दक्षिणामन्वावृतम् सा मे क्रमेण यच्छतु सा मे ब्राह्मणवर्चासम् विषो ज्योतिष्पदेभ्यावस्ते रामे द्रवेण यच्छन्तु रामे ब्राह्मणवर्चासम् हेतम् वधेस्तेन वामहै यात्ते परमेश्व ब्रह्मणापि पदामदम् वैश्वानरश्चाभ्याम् हेतिष्ठम् समाधातभि इयम् तम् स्थाहो निः समित् देवी राज्ञोऽवरोणस्य बन्धोऽसि सो ओमुष्यायन ममुष्यात् पुत्र मन्ये प्राणे बधा पका क्षेयते पृथिरेव नस्य नस्त्वम् भो वस्पदे संव्रजच्छप्रजापते अपो दिव्याजायुषं रसयसमा वृक्ष्मे पयस्वानन्दम् आसंसृजवर्च सा सम्माज्ञर्च सासृज संव्रजयासमायुषा सा। विद्यर्मे अस्य देवा इन्द्राविद्यात्साहशेभिः यज्ञे अध्यमे धाशपादो यद्वाच स्थिष्टम् जलयम् दरेभाः अन्यान्मलकर्शदव्या आय देयातया विध्य दे हृदययादुधानाम् दे दे परा श्रीः तपासा यातुधानाम् पराग्ने रक्षोहलासाश्रुणीः परार्तिषामोरदेवान् शृणेः परा अपामस्मै वज्रम् प्रहरामि चतुर्भष्टम् चेत् अभिव्याय विद्वान् सो अस्याङ्गानिष् प्रशनादन् मातन्मेह देवायो दीयोर्भातृव्यस्य सुभार्द्वात्रिषदशिराः अपेव स्थाम्योजसा वर्म मय्यामयम् पूर्णमन्थनमाजमद्रे सह वर्चा शक्वधेत्रक्षाहस्ते न वा स्या पापस्ता तस्मात् जीवना पुनम् दश्रियम् हिरण्यदश अयम् मणः श्रद्धा यज्ञम् महोदधोति तस्मै घृतम् सुराम् मद्भन्नामन्नम् शतामहे तनप्यदेव पुत्रेभ्यश्च यत्र यष्टि गच्छतु भोज भोज्व देवेभ्यो मणिहस्तम्फालम् धर्मम् खगदमोजसे प्रमज्ञप्रत्ययमुञ्चदसाुहाद्यम् भूयो भोजवश्वश्वरम् देशतो जहि यमवद्घ्रात्र हस्तदर्मफालम् घृतश्चमुग्रङ्ख निरमोजस तमिन्द्र प्रत्यमं च दौजस धीर्याय कम् स्वस्मै बलमित्तो हे भूयो भूयश्वश्वस्य न त्वन्दे सदौज हे यमवद्घातृहस्तम् फाळङ् घृतश्च सोऽस्मे वर्चयद्दो हे भूयो भो यश्व स्वस्ते रत्त्वम् देशतोजाहिलम् घुरस्य नो जेंसो यप्रत्यमुञ्चदेनैवादयच्छिशाः सोऽस्ते भोगमिद्दो हे भूयो भो यस्वश्वस्ते नत्वम् देशतो जाहि न मध्नात्र हस्त धर्मणिम् भालङ््युतमुगृह्ण दिनमोजसे तम् विभ्रच्छन्द्रमा मणिमसूराणाम् दुरो नयद्लवानाम् हिरण्येः स्वस्मै श्रिय विद्दो हे भोजो भोज श्वस्ते शतो जे नममध्नात्र हस्तशर्पादाय सोवात्मैवाचिनम् दुहे भोजो भोजस्व स्वस्ते न त्वं द्वि सदो जहि यमवध्मातृहस्त शर्वादाय मणिमासमेः ते मेमानि श्रुषिमश्विनावभिरक्षतः सभिरभ्याम्बो दुहे भोजो भोजस्व स्वस्ते न त्वन्वि सदो जहि यमवध्मातृहस्त शर्वादाय मणिमासमे त्सविता मणिन्दे नेतमाज यत्स्वाः सोऽहस्ते सोऽतान्द हे भूयो भूयस्वस्वस्ते न त्वन्दे शतो जे नवध्नाद्रुहस्त्व मणिमाशवे भो बिभ्रतेर्मणिम् सदा धावन्त्यक्षिताः साभ्योमृतमिन्दो हे भूयो भूयस्वश्वस्तेन त्वन्दे शतो जाहि यमबध्मातृहस्तशर्वादाय मणिमाशवे तम् राजावलोणो मणिम् रत्यामुञ्चलभुवम् सोऽस्मै सत्यमित्तु हे भूयो भूयश्व हस्ते नस्तम् देशतो जाहि यमपध्मातृहस्तशर्वादाय मणिमाशवे तम् देवाविभ्रतो मणिम् सर्वान् लोकान् विधाजयन् स येभ्यो तिमिद्दो हे भूयो भो हस्व स्वस्तेनत्वन्दे शो जाहिमवध्दातु अल्पर्वाचाय मणिमाशवे देवताः मणिम् प्रत्यमुञ्चन्त शम्भुवम् सा भो विश्वमिद्दो हे भूयो भू हस्व स्वस्तेन त्वन्दे शो सन्नच्छरस्वम् बद्धा सर्वम् भूतम् विलक्ष्यति अन्तर्देशात प्रतिशस्तमाबध्रता प्रजापातिसृष्टो मनिर्देशतो मेधाराः असर्वता अकर। सर्वणामध्म तैर्मेदिनो अङ्गीरसोदस्यो नाम्येदौ पुरहस्तेनत्वम् ना देशतो जाहि कन्धाता प्रत्यामञ्जरस भूतम् व्याकल्पयत् तेन त्वन्द्वे शतो जाहि यममवज्मातृहस्वदर्जैवभ्यासो रक्षितिम् स्वमायम् मणिरागामर्जसेन सह वर्चसा यमवध्दातृहस्वदर्जैवेभ्यासो रक्षितिम् स्वमायम् मणिरागामत्सह गोभिरजामिभिरन्देन प्रया सह यममध्मातृहस्ततर्जैवेभ्यासो रक्षतिम् स मायम् मणिरागामत्सहौ व्रीहेवाभ्यामहभोद्यासः रमबध्नात्र हस्पदर्जैवेभ्यासो रक्षितिम् समायम् मणिरागामन्वधार्घृतश्च धाराय कीलालेन मनिः सह रमबध्नात्र हस्पदर्जैवभ्यासो रक्षितिम् समायम् मणिरागामगोर्जयापयासा सहत्रबीलेन श्रेयासह यमबध्नात्वा हस्मदर्दैवभ्यासो रक्षितिम् स मायम् मणिरागामत्ते च सापिष्या सह यज सा भीत्या सह यमब्नात्वा अस्मदर्दैवभ्यासो रक्षितिम् सह समिमम् देवता मणिम् वक्यम् दपुष्टा ये अभिभं ब्रह्म नाचे जासा सह प्रति भुञ्जामि मे शिवम् असभक्तः स भग्नः सेधारा बत्ना अगः उत्तरङ्गो मामयम् मणित्रे लोच देव यस्या लोका इमेश्व दुग्धमुपासमायमधेरोः सुमणिश्वायमोर्धातः यन्दोमनुश्च स्वमायमधेरोहतु महि श्रेष्ठाय मोर्धरतः यथा बीजामनुपरायाम् कृष्णेन रोहाति हेवामय प्रजापशवोन्नमन्नम् विरोहतु यस्मेस्त्वा यज्ञवर्धनामणे प्रत्यमोदम् शिवम् एतमित्थम् समाहेतम् जुषाणो अग्ने प्रदेहर्यहो मयेः तस्मिन् विलेवसुमाचिम् स्वस्ति प्रजान् यक्ष्व प्रशोन् स्वमित्य जातके रसि ब्रह्मण कस्मिन्नङ्गे तपो हस्याधे तिष्ठदिकस्मिन्नङ्गमस्याध्याहेतम् क्वतम् क्व श्रद्धाश्च तिष्ठदिकस्मिन्नङ्गे सत्यमस्य प्रतिष्ठितम् कस्मादङ्गाद्ये अज्ञरस्य कस्मादङ्गार कस्मादङ्गाद्ये चन्द्रमा महस्तम्भस्य अभिमानोऽङ्गम् कस्मिन्नङ्गे तिष्ठति भूमेरस्य कस्मिन्नङ्गत्यन्तरिक्षम् कस्मिन्नङ्गत्याहेताद्यौ कस्मिन्नङ्गत्युचारम् दिवः यत् अप्रेक्षम् दे लभयन् चावृतस्कम्भन्तम् प्रोकतामस्वेदेवसः माधमाधायन्ति माधाः सम्वत्सरेण सहम् विधानाः यत् अयम् कृतभायत्रा वा स्कम्भन्तम् प्रो हि कृतामस्वे देवतः क्षन् देवी अहोरात्रावदः संविधाने यत्र प्रेक्षम् दे अभयम् च स्कम्भन्तम् रोहि गतमस्वेदेवसः यस्मिन् सद्भाजापादम् लोकान् सर्वान् अधारयत् स्कम्भन्तम् रोहि गतामस्वेदेवसः यद्वा रममापमयच्च मध्यामम् प्रजापादश्च विश्वस्तम्भप्रेष तत्रयम् न प्रावेशत् यत्तद्बाभूव कियता स्तम्भप्रवीवेषभूतम् कियत् भविश्वरन्वासायस्य एकम् यतम् ध्यामत्रसहस्राधाम्भप्रवीवेश तत्र यत्र लोकांश्च गोषांश्च भो ब्रह्मजना विदुः अथ च यत्र हश्चान्तः स्कम्बन्धम् प्रोहि गमस्वीदेवसः यत्र अदमपरात्म्यम् व्रतम् धारयत्युत्तरम् वृतम् च यत्र श्रद्धा चाभो ब्रह्म समाहेता सम्बन्धम् प्रोहि गमस्वीदेवसः यस्मिन् भूमेरन्दरक्षन्द्यौर्यस्मिन्नध्याहेता यत्रार्थन्द्रमासो योलाद्यार्थितास्कम्भन्तम् रोहि कामस्वेदेवसः यश्च त यस्त्रिंशद्देवाङ्गे सर्वे समाहीताः सम्भन्तम् रोहि कामस्वे देवसः यत्र रसाय प्रथमाचारितः सा मयितुर्महे एकदश यस्मिन्नार्ते तस्कम्भन्तम् रोहि कामस्वेदेवसः यप्रावृतम् च मृत्यश्च पुरुषेधे समाहेते समुद्रा यस्य नाड्यापुरुषेधे समाहीता स्तम्भन्तम् रोहि कदामस्मिदेव सः यस्य च तस्य प्रयो नाड्या आस्तिष्ठन् रक्षसाः यज्ञा मेष्ठिनम् यो वेद परमेष्ठिनयश्च वेद प्रजापातिम् त्रेष्ठ स्तम्भानसंवेदः यस्य शिरो वैश्वानलश्च क्षरङ्गेन सोऽभावन् अङ्गालयस्य यादव स्तम्भम् कम् प्रो हृदयस्वे देवतः यस्य विराजामोधा यस्याः स्कम्भन्तम् रोहि कदामश्चेदेवसः यस्मादु च अपालक्षण्यज यस्मादपाकाशन् सामान्य यस्य मान्यसर्भाङ्गिरसामुखम् स्कम्भन्तम् रोहि कदामश्चेदेवसः शाखाम् प्रतिष्ठन् रामेव जनाविदो कुतो सन्मन्येव यत्रा नित्याश्च रुद्राश्च समाहिताः भोजम् च यत्र भव्यम् च सर्वे लोकाप्रतिष्ठिता स्तम्भन्तम् रोहिकतामस्मि देव सः यस्य त्रयस्त्रिंशद्देवानिधिम् रक्षन्ति सर्वदा निन्दमध्यकोपे दयम् देवाभिलक्षत्र देवा ब्रह्ममिद ब्रह्म यो वेदान् विद्याप्रत्यक्षम् स ब्रह्म वेदिता स्यात् बृहन्दो नामते देवाय सदपरिजज्ञिरेकन्तदङ्गम् स्कम्भस्या स दाहुः पराजनाः तत्र स्तम्भप्राजनयन् पुराणम् व्यवर्तयत् येकन्तदङ्गम् स्तम्भस्य पुराणमाभि संवेदः अस्य त्रयस्त्रिंशद्देवाङ्गे गात्रा विभे जिरे त्रयस्त्रिंशद्देवाले गेह ब्रह्मविदो विदुः हिरण्यगर्भम् परममा रच्युत्यञ्जना विदुः स्कम्भस्तद ग्रे प्राञ्चद्धिरन्न लोके अन्तरा स्कम्भे लोका स्तम्भे स्कम्भत्वावेदप्रत्यक्षमिन्द्रे सर्वम् समाहेतम् इन्द्रे लोका इन्द्रे तप इन्द्रेऽधृतमाहेतम् इन्द्रन्वेदप्रत्यक्षम् स्कम्भे सर्वम् प्रतिष्ठितम् नानाम्नाजोहवेति पुरा सूर्यात् पुरोषसाः यदप्राशमम् सम्बभो वसः लक्ष्मणाज्यामियायष्मान् नान्यत्पदामस्ति भूताम् यस्य भूमे प्रमान्तरिक्षमुदोदरम् तिमयश्चक्रमूर्धानन्दस्मै ज्येष्ठाय ब्रह्मणे नमः यस्य शौर्यश्चक्षश्चन्द्रमाश्च पुनार्णवः अग्नेयश्चक्रास्या आन्दस्मै विशायश्चक्रप्रज्ञानेस्तस्मै ज्येष्ठाय ब्रह्मणे नमः स्तम्भोदाधारद्यावा पृथिवी उभे इमे स्कम्भोदाधारोर्वा आन्तरिक्षम् सम्भोदाधारप्रतिशुर्पि सम्भ इदम् विश्वम्भव नमाविवेश विश्रमात्मनो जातो लोकान् सर्वान् समानशे सोमय्यश्चक्रे केवलं तस्मै ज्येष्ठाय ब्रह्मा ने नो नेलायति कथम् न रामने मुनाः किमाप्सन् मेलायन्ति कदाचन महाध्यक्षम् भुवानस्य मध्येतमशिख्रान्तम् च लिलस्य तस्मिन् स्वयम् योगे च देवा यस्मै हस्ताभ्याम् पादाभ्याम् पादा श्रोत्रेण यस्मै देवाः सदा बलिम् प्रयच्छन्तितम् सम्भन्तु रोहि गतमश्रीदेवसः अपातस्य हतन्तमोऽप्यावत्तस्य पात्मना सर्वा निरस्मिञ्जोजयम् प्रजापादौ यो वे दसंहेरन्ययम् तिष्ठन्तम् सुलिले वेद स्वमेकस्य प्रजापादिः तन्त्रमेघे युवदे विलोपे अभ्यात्पामम् मय पश्यन् मायूषम् राण्यादन्तोम् स्थिरते धत्ते अन्याः पाञ्जातेन के पादोऽहन्तम् तयोरहम् पानिवृज्यम् यालिवलविजानामयस्तात् योखाव भर्तिभंसामाजस्तसाराणि वादाे नो भूतम् चानुयञ्जसर्वञश्चाधितिष्ठति स्वार्यस्य जगमानन्दस्मै ज्येष्ठाय ब्रह्माणे नमः स्तम्भे नेमे विष्टाभिजेत्यौश्च भूमिश्च तिष्ठतः कम्भ <्कंगायरं> इदम् गर्वमात्मन्वद्यस्रोहमायन्या आन्याश्रमभितो विशङ्कस्थो रज सोऽपिमानम् हरीतो हरिहीराविवेश द्वादशप्रभयश्चक्रमेकन्त्रे वेलभ्या निक उलज्जीकेत तत्राता स्त्रेण शतानि शङ्गवः षष्ठे छठिनामीजाविदविकाय गजः तस्मिन्हा वित्कमिच्छन्ते एषामेकायगजः आविः सन्निहिदङ्गुहाजरन्नाम महात्पदम् तत्रैदम् सर्वमात्पेदमेतत्प्राणत्प्रदर्शितम् एकचक्रम् वर्तते एका नेमि सहस्राक्षरम् प्रपुरोणि पश्चात् अर्थेन विश्वम् भुवाणम् जानयुत सार्धम् वा आसक्ता भूव पञ्चमाहे वा हत्यग्रामे शाम् प्रष्ठा यो युक्ताः विर्यग्निरश्च मासवोद्भवद्धस्तत् विन्यसानिहेतम् विश्वतोमम् प्रसदर्शायः सप्तसाखेये अस्य गोपामा हतो वा भोगः या पुरस्ताद्विज्यतेया च पश्चाद्या विश्वतो युज्यतेया च सर्वथाः यया यज्ञप्रान्तायतेतान् त्वा पृच्छामि निरेजादिपदादि यच्च अगुष्ठादिप्राणदप्रमाणनिवेशच्च यद्भुवादे तच्चाधारपृथिवेम् विश्वरोपम् तत्सम्भूय भवत्येकमेव अनन्तम् वितादम् पुरत्रानन्तमन्तामर्चासमन्दे एनाकपालश्च रति विचिन्वन् विद्वान् भोतमुत भव्यामश्च प्रजापादिश्चरति गर्भे अन्तरदृश्यमानो बहुधा विचारिते अर्धेन विश्वम्भुवानम् जानयः सार्धम् गण तपस्य केतुः गोर्ध्वम्फलम् बहुधाकम् कुम्भेनेवोदहार्यम् पश्यन्ति सर्वे चक्षुषा न सर्वे मना साविदुः दूरे पूर्णेन वसति दूरभूनेन हीयते महद्यक्षम् भवानस्येव मध्ये तस्मै बलिम् राष्ट्रभृतो भरन्ति यत्र सोयमुनेत्यस्तत्र गच्छति तदेव मन् देहम् ज्येष्ठम् तदुनात्ये किञ्चन ते अर्वाङ् मध्य उदवापुराणम् वेदम् विद्वाम् समभितो वदन्ति आदित्यमेव च परे वदन्ति सर्वे अग्निर्विधीयम् त्रिभृतम् जहंसम् साधान्यम्वस्य पक्षो हरे हंसस्य पतादः स्वर्गान् स देवान् सर्वानुरस्ति भगत्या सम्पश्यन्विश्वाः सत्येनोध्वस्तापथे ब्रह्म्यते प्राणेन धर्यम् प्राणादि यस्मिन् जाष्टपधि श्रुताम् स्वच्वान् ज्येष्ठम् वन्यतसविद्या प्राह्हद अपादक्रे समभवत्स्वा क्ले स्वारभारत चतुर्वात् भो त्वा भोग्यः सर्वमदत्त भोजानम् भोग्या भवदसान्नामदद्भो यो देवमुत्तरावन्दमुपाधा पुनार्णवः आरात्रे प्रजायते अन्यो अन्यस्य रूपयोः शतम् सहर्ष मयि अन्यत् उदमसङ्ख्येयम् सुखमस्तन्निवेष्टम् पदस्य ख्यङ्गेवोरो चेतते बालादे कामणीयुष्कमुदैकन्नैवादृश्यते तत्परिष्वदीयसी देवदा मम प्रिया यम् गल् ग्राण्या आचरा गृहे यस्मै कृताशयेशयश्चकारा जगालाशः त्वाम् स्त्रीत्वम्बुमान् शक्कम् गो मालमुतमः कुमारी त्वम् ये नो दण्डेन मञ्जशक्कम् जातो भवति विश्वतोमुखः उतैषाम् पितोदकः पुत्रजेषामुदेषाम् ज्येष्ठवाच निष्ठः एकोह देवो मया सर्पविष्ठ प्रथमो जातस्वगर्भे अन्तः पूर्णात् पूर्णमुदा इति पूर्णम् पूर्णेण शिच्यते उदा तदर्थमिद्यामयतस्तत्पादि शुच्यते येषा सदर्थे जामीषा गो राणीपरि सर्वम् बभूव मही देव्यो ओषसो सैके नैकेन विशाखा विचष्ठे अभिर्मै नाम देवतर्तेनास्वीमृता तस्याः रूपेण वृक्षा हरे दाहलेदस्वजः अन्तिलम् कन्नयाहात्यन्तिलम् तन्न पश्यति दे। देवस्यापश्यकात्यन्न मामारणजेर्यते अपूर्वेणस्तावादन्तु यथा यथम् परम् तेर्यत्र गच्छन् निगदाहुब्राह्मणम् यत्र देवाश्च मनुष्याश्चाराणाविवश्रुताः भवान् तापुष्पम् वृक्षाभिजत्रादियेतदम् ते पञ्चनिषत्सध्रीः य आहोतिमत्यमन्यन्त देवान् नेतारमेता सन् पृथिवेम् वस्तये कोऽक्षम् पर्येको बभूव विवामेषाम् प्रदे रक्षम् एके यो विद्या श्रोत्रम् विदातये यस्मिन्नो दाः प्रजाहिमाः श्रोत्रम् श्रोत्रस्य यो विद्या समिद्यात् सोत्रम् सोऽत्रस्याहम् वेदासोऽ ब्राह्मणम् महद् यदम् तलाद्या वा पृथिवी अग्निले प्रदहन् विश्वदाव्याः यत्रातिष्ठन्ने गावत्ते परस्तात्मेवासेन्मातलिष्वरीः अश्वासेन्मातरिष्वा प्रविष्ट प्रविष्टा देवाः स लिलान्या सन् बृहन्नादस्थौरजासा विमानः पवामाना हरितावीवेश उत्तारेणैव गायत्रीमृतेधिविचक्रमे सायेमासम् विदस्तद्दादृशेष्प निवेश नः सङ्गमानावसोनाम् देवजीमसविना सत्यधार्मा इन्द्राणवस्थौ सुपालेधनाम् पुण्डली गन्धवद्वारम् त्रिभिर्गुणेऽभिरावेदम् तस्मिन् यद्यक्षमात्मन्नत्तम् हविदोविदः कामोऽधेन अमृतस्वम्भोरथेन सप्तोऽतश्चनो नः त्वमेव वित्तान्नवेय मृत्योर्हात्मा गन्धेरमगरयुवाहानम् अधाय नामपेन श्यामुखामि सपत्रे सुवज्रपर्पयैकम् इन्द्रेण दत्ताप्रसमागदौदा भ्रातृव्यग्नेतुः वेदष्टे धर्म भवतु महानियानीतेभेद्रात्तैषोधीकृत्यतो बालास्ते प्रोक्षणे सन्तु जिह्वा सम्मास्तघ्ने शुद्धात्मै यज्ञाः भूत्वादिपम्नेः सदौ तने यः सदौ दानाम् पदादिकामप्रेण सकल्परेख्यश्चिषः सर्वेयम् ते यथा यथम् स स्वर्गमारो हृदयत्रादस्त्रे दिवम् दिवः अहोमनाभ्यम् कृत्वा यो ददादिशदौ दानाम् स्वताल्लोकान् समाह क्रोदये दिव्याय च पार्थिवाः हिरण् ज्योतिषम् एते देवि च पितारः पक्तारो ये च देविनाः ते त्वा सर्वे गोप्स्यन्ति मयेभ्यो भैषेश्वदौदने वसावस्त्वा दक्षिणाद उत्तरान्वरदस्त्वा आदित्या पश्चाद्गोप्स्यन्तिमनेन्द्रवा देवापितरामनुष्या गन्धर्वात्सर्वे रात्रमदिव अन्तरिक्षन्ति मम् भूमि मादित्यान् मरतोदिषाः लोकान् सर्वानात्मो दियोसौदानाम् घृतम् प्रोक्षन्ते सुभगा देवी देवान् गामिष्यति भक्ता रामग्ने माहि सदौदने ये देवा देवी सनो अंतरिक्ष सदस्य ये जय मे भूम्यमते वे भक्तम भक्तम वदा क्षीरम सर्पिरा धामध यत्ते शिरो यत्ते मुखयो कर्णो यज देहमो अमिक्षां दत्प्रदान दत्रे क्षीरम सर्पिरा धामध यौतवस्थौ येनासि केगे सुज्ञयेते अमिक्षाम् दुःकदाम् दात्रे क्षीरम् सर्पिरथामधु यत्तेज क्वामायप्रदायम् पुरेरः सह कण्ठिका मामिक्षाम् दुःखदाम् दात्रे क्षीरम् सर्पिरथामध यत्तेजगत्ययदस्तैजधान्त्रय्याश्च जयमुदाः आमिक्षाम् दुःकृदाम् दात्रे क्षीरम् सर्पिरथामध यस्ते प्राचुर्यो वा निष्ठुर्यौ भुक्षी यच्च कर्म ते आमिक्षाम् दुःकृताम् दात्रे क्षेरम् सर्पिरधोमथो यस्ते मज्जायदस्थिय मांसै यच्च लोहीतम् आमिक्षाम् दुःकृताम् दात्रे क्षेरम् यौते बाहूये दोषणीयावंशो याचते ककुदे अमिक्षाम् दुःखदाम् दात्रे क्षेरम् तर्पिरथोमधो यास्त ग्रीवाय स्कन्धायाः स्पृष्टेर्याश्च पर्षावः आमिक्षाम् दुष्कृदाम् दात्रे क्षेरम् दर्पिणथोमधो यौ दोरो अष्टैवन्तो ये श्रोणे याजत भजत आमिक्षाम् दुःखदाम् दात्रे क्षेरम् तर्पिरथोमधो यत्ते कुच्छय्य ते पालाविलोधो ये, ये च ते स्तनाः दात्रे क्षेरम् सर्पिन सोमधो यास्ते गङ्गायात् कुष्ठे कालक्षराये च ते सभाः आविक्षाम् दुःकृदाम् दात्रे क्षेरम् सर्पिन सोमधो यत्ते चर्मा कौदने या रिलो मान्यघ्ने मिक्षाम् दुष्पदाम् भाद्र क्षीरम् तत्परतोमधो यत्ते कर्मदने यानि लोकान्यज्ञ अमिक्षाम् दुष्पदाम् दात्र क्षीरम् तत्परतोमथो प्रौढोदयसाम् प्रौढाश वाज्ये नाभिकारिदौ पक्षौ देवन्दिवम् वः मुसलेश्च कर्माणि यो यम् भावाच मा दरिष्वामानो ममाधाज्ञष्टो दाधोदम् कृणोतु अपो देवे मधो मतेर् ब्रह्मणाम् हस्ते स्वयामि यत्ताम इदमाभिषञ्जामि वोहम् तन्मेधर्मम् सम्पद्यताम् वयम् स्याह मणपदायोदयिना नमस्ते जायमानायै गाया उदरे नमः शभेभ्यो रूपाया घे मे नमः यो विद्यात् सप्त प्रवदः सप्त विद्यात् परावदाः शिरो यज्ञस्य यो विद्यात् समसाम् प्रति गृह्णीयात् वेदाहम् सप्त प्रवदः सप्तवेदपरावदाः शिरो यज्ञस्याहम् वेदसोमम् चास्याम् विलक्षणम् यया जौर्यया पृथिवीया वो पितारिमाहम् चाराम् ब्रह्मणाच्छावा शरम् पुंसा शरम् भोग्धार शरम् भोक्तार अधिपृष्टे अस्याः ये देवास्तस्याम् प्राणन्ति ते भजाम् वेदरेकधा यज्ञपतीराक्षीरा स्वधा प्राणामहे लोकाः वशा पर्जन्यावर्नि देवा अप्यहेति ब्रह्मण अनत्वाग्निप्रादेशतरुषोमा वशे त्वा बूधस्य भद्र पर्जन्याः विद्युतश्चेस्तरा वश अपस्कन्धुप्स्य पृथयमा धुक्षेन्नम् क्षेरम् वशे त्वम् यदादित्यैर्होयमाह नोपाधिष्ठलतावले इन्द्रः सहस्रम् पात्रान् सोमन् पापायद्वशे योजेन्द्र अमेरात्तायते तस्माहस्ते मया क्षेरम् क्रुद्ध्वा हरद्वश यद्वासनाक्षे न महाद्वशे रक्षति क्रशपात्रैः श्रुतम् सोमधेव्या हरद्वसनात् अथवा यत्र दीक्षितो वर्हिश्चास्ताहिरन्यये सम्भिजो मेनागादशम सर्वेण पद्वता स्वशाद्रमध्यष्टात्यम् धर्मैः कलभिः सह सम्भिव जनागादशम सर्वे पदत्रिभिः वशासा मुद्रे प्राणत्यनुजास्तामाहनि बिभ्राति संभिशो जेनागादसमसर्वेण चक्षुषा वशा सा मुद्रमत्यक्षद्रा ज्योतेम् निबिभ्रजे अभिवृहता हिरण्यधिष्ठे अस्य समुद्रो भोक्तास्कन्दत्व तद्भद्रा समागच्छन्दवशाधेत्यथो स्वधायत्रा दीक्षितो हिरण्यये वशा माता राजन्यस्य वशा वशाया यज्ञा योदन्तनश्चित्तमाजायत ओर्ध्वा चरद्ब्रह्म रक्तम् जग्स्य भवन्मुष्ण्यः परम् वश वायस्याः यज्ञे यज्ञस्तनेभ्यो लक्ष्मयस्तवर्वाभ्यामयानम् जातम् सख्यभ्याम् च वश यदोदरम् वरोणस्यादप्रादे सुधा वशे तदस्त्वाद्ब्रह्मोदक्पयत्स हि नेत्रमवेत्तव सर्वे गर्भागेम् गजायामानादो स्वाहा सो महिलामाहुर्वशे दिब्रह्माप्तश्चक्यस्याबन्धोः यथा एकः संश्रजदयो अस्यायैका युद्वलि यज्ञाहु अन्तरा सान्त्यक्षोरभवद्वशा वशा यज्ञम् प्रत्यागृह्णाद्वशा सौर्यावधारयत् वशायामन्तराविशदोधनो ब्रह्मणा वशाम् प्रति गृह्णेयात् तथा हि यज्ञः सर्वेदास्त्रेण वस्फुरन् विश्रो जित्वावरोणस्यान्तर्देत्यत्यासने तासाय्यामध्ये राजा दिशावशा दुष्प्रतिग्रहा चतुर्धारा भवद्वशायाः आपस्थुरेयम् मृगन्तुलीयम् यज्ञस्तुलेयम् वशवस्तुलेयम् वसाद्यो वशापेशिवे वशा विष्ट प्रजापादिः वशाया दुग्धमाभि वशाया दुग्धमपैता साध्यावसा वश्चाये देवै ब्रह्मस्यामिष्टविमयोश्च दे। सोमा मे नामेके दुःखे षतमेकमुपासते यम् विदुषे शान् गतोस्ते गतास्ते दिवम् दिवः ब्राह्मणेभ्यो दशाम् दत्त्वा सर्वान् लोकान् समश्रुते न श्यामास्ति तमभि ब्रह्म धोतपाः वशाम् देव उपजीवन्ति वशाम् उत वशेतम् सर्वमभवत्या वत्सूर्यो विपश्यति ऊ